चतुस्सप्ततितमोऽध्यायः वैशम्पायन उवाच प्रतिज्ञायतु दुष्यन्ते प्रतियाते शकुन्तलाम् गर्भश्च ववृधे तस्याम् राजपुत्र्याम् महात्मनः शकुन्तला चिन्तयन्ति राजानम् कार्यगौरवात् दिवारात्रमनिद्रैव स्नानभोजनवर्जिता राजप्रेषणिका विपाश्चतुरङ्गबलैः सह अद्य श्वो वा परश्वो वा समयान्तीति निश्चिता दिवसान् पक्षान् ऋतून्मासानयनानि च सर्वशः गण्यमानेषु सर्वेषु व्यतीयुस्त्रीणि भारत गर्भम् सुषाव वामोरोः त्रिषु वर्षेषु पूर्णेषु दीप्तानलसमद्युतिम् रूपौ दार्यगुणोपेतम् दौष्यन्तिम् जनमेजय तस्मैतदान्तरिक्षात्तु पुष्पवृष्टिः पपातः देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः गायत्यो मधुरम् तत्र देवैः शक्रोभ्युवाचः शकुन्तले तव सुतश्चक्रवर्ती भविष्यति बलम् तेजश्च नसमं भुविके नचित् समम् भुवि केनचित् आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः अनेकानि सहस्राणि राजसूयादिभिर्मखैः स्वार्धम् ब्राह्मणसात् कृत्वा दक्षिणाममिताम् ददात् वैशम्पायन देवतानाम् वचः श्रुत्वा कणवाश्रमनिवासिनः सभाजयन्तकण्वस्य सुताम् सर्वे महर्षयः शकुन्तला च तच्छ्रुत्वा परम् हर्षमवापसा द्विजानाहूय मुनिभिः सत्कृत्य च विधिवत्कारयामास वर्धमानस्य धीमतः दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो महान् चक्राङ्कितकरः श्रीमान् महाबलः कुमारो देवगर्भाभः न तत्राशुव्यवर्धत षड्वर्ष एव बालः स कण्वाश्रमपदम् महिषांश्च गजांस्तथा बबन्धवृक्षे बलवानाश्रमस्य समीपतः आरोहम् दमयंश्चैव क्रीडंश्च परिधावति ततश्च राक्षसान् सर्वान् पिशाचांश्च रिपून् रणे मुष्टियुद्धेन ताम् जित्वा ऋषीनाराधयत्तदा कश्चिद्दितिसुतस्तम् तु हन्तुकामो महाबलः वध्यमानाम्स्तु दैतेयानमर्षीतम् समभ्ययात् तमागतम् प्रहस्यैव बाहुभ्याम् परिगृह्य च दृढम् पीडया पीडयामासतम् तदा मर्दितो न मोचितुं मोचितुम् बलवत्तया प्राक्रोशद्भैरवम् तत्र द्वारेभ्यो निःसृतम् त्वसृक् तेन शब्देन वित्रस्ता मृगाः सुस्रुवुश्च शुक्रुन्मूत्रमाश्रमस्थाश्च सुस्रुवुः निरसुञ्जानुभिः कृत्वा विससर्ज च सोपतत् तम् दृष्ट्वा विस्मयम् चक्रुः कुमारस्य विचेष्टितम् नित्यकालम् वध्यमाना दैतेया राक्षसैः सह कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम् ततोऽस्य नाम कण्वाश्रमनिवासिनः अस्त्वयम् सर्वदमनः सर्वम् हि दमयत्यसौ स नाम कुमारः समपद्यत विक्रमेणौ जसा च समन्वितः अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च पाण्डुभावपरीताङ्गी चिन्तया समभिप्लुताम् लम्बालकाम् कृशाम् दीनाम तथा मलिनवाससम् शकुन्तलाम् च सम्प्रेक्ष्य प्रदध्यौ शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन् तम् कुमारम् ऋषिर्दृष्ट्वा कर्म चास्यातिमानुषम् समयो यौवराज्यायेत्यव्रवीम् शकुन्तलाम् शृणुभद्रे भद्रे ममसुते, मम वाक्यम् शुचिस्मिते पतिव्रतानाम् नारीणाम् विशिष्टमिति चाच्यते पतिशुश्रूषणम् पूर्वम् मनोवाक्कायचेष्टितैः अनुज्ञाता मया पूर्वम् पूजयैतद्व्रतम् तव एतेनैव च वृत्तेन विशिष्टाम् लप्स्यसे तस्माद्भद्रे प्रयातव्यम् समीपम् पौरवस्यः स्वयम् नायाति मत्वा ते गतम् कालम् शुचिस्मिते गत्वा राधय राजानम् दुष्यन्तम् हितकाम्यया दौष्यन्तीम् यौवराज्यस्थम् दृष्ट्वा प्रीतिमवाप्स्यसि देवतानाम् गुरूणाम् च क्षत्रियाणाम् च भामिनि भर्तॄणाम् च विशेषेण हितम् सङ्गमनम् सताम् तस्मात्पुत्रिकुमारेण गन्तव्यम् मत्प्रियेप्सया प्रतिवाक्यम् न दद्यास्त्वम् शापिताममपादयोः वैशम्पायन उवाच तत्र पौत्रम् कण्वोऽभ्यभाषत परिष्वज्य च वाच सोमवंशोद्भवो राजा दुष्यन्तो नाम विश्रुतः तस्याग्रमहिषी चैषा तव माता शुचिव्रता गन्तुकामा भर्तृवशम् त्वया सह सुमध्यमा गत्वाभिवाद्य राजानम् यौवराज्यमवाप्स्यसि स पिता तव राजेन्द्रस्तस्य वशगो भव पितृपैतामहम् राज्यमनुतिष्ठस्वभावतः शकुन्तले शृणुष्वेदम् हितम् पथ्यम् च भामिनि पतिव्रताभावगुणान् हित्वा साध्यम् न किञ्चन पतिव्रतानाम् देवा वै तुष्टाः सर्ववरप्रदाः प्रसादम् च करिष्यन्ति ह्यापदर्थे च भामिनि पतिप्रसादात् पुण्यगतिम् प्राप्नुवन्ति न चाशुभम् तस्मात् गत्वा तु राजानमाराधय शुचि स्मिते तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाचः शकुन्तलामिमाम् शीघ्रम् सह पुत्रामितो गृहात् भर्तुः प्रापयतागारम् सर्वलक्षणपूजिताम् नारीणाम् चिरवासो हि बान्धवेषु न रोचते कीर्तिचारित्रधर्मघ्नस्तस्मान्नयतमाचिरम्